भर्गात्मिका भीमवती भवबन्धविमोचिनी भजनीया भूतदात्री रञ्जिता भुवनेश्वरी भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी माता माया मधुमती मधुजिह्वा मधुप्रिया महादेवी महाभागा मालिनी मीनलोचना मायातीता मधुमती मधुमांसा मधुद्रवा मानवी मधुसम्भूता मिथिलापुरवासिनी मधुकैटवसंवर्त्री मेदिनी मेघमालिनी मन्दोदरी महामाया मैथिलीमसृणप्रिया महालक्ष्मीर्महाकाली महाकन्या महेश्वरी माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी मधुरद्राविणीमुद्रा मलया मलयान्विता मेधामरकतश्यामा मागधी मेनकात्मजा महामारी महावीरा महाश्यामामनुस्तुता मातृकामिहिराभासा मुकुन्दपदविक्रमा मूलाधारस्थिता मुग्धा मणिपूरकवासिनी मृगाक्षी महिषारूढा महिषासुरमर्दिनी योगासुना योगगम्या योगा यौवनकाश्रया यौवनी युद्धमध्यस्था यमुना युगधारिणी यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी यात्रायानभिधानज्ञा यदुवंशसमुद्भवा या यकारादिहकारान्ता याजुशी यज्ञरूपिणी यामिनी योगनिरता यातु धानभयङ्करी रुक्मिणीरमणी रामा रेव रेणुकारतिहि रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया राज्यदारेवा, राज्यदारेव वलोचना, राकेशी रूपसंपन्ना, राकेशीरूपसम्पन्ना रत्नसंहासनस्थिता रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना राजहंसमारूढा रम्भा रक्तबलिप्रिया रमणीययुगाधारा राजिताखिलभूतला रुरुचर्मपरिधाना रतिने रक्तमालिका रोगेशीरोगशमनी राविणी रोमहर्षिणी रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा लज्जादिदेवता लोला ललितालिङ्गधारिणी लक्ष्मीर्लोला लुप्तविषा लोकिनीलोकविश्रुता लज्जा लम्बोदरी देवी ललनालोकधारिणी वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी विनता व्योममध्यस्था वारिजासनसंस्थिता वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा वामदेवप्रिया वेला वज्रिणी वसुदोहिनी वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा वासुवी वामजननी वैकुण्ठनिलयावरा व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता शाकम्भरी शिवा शान्ता शरदा शरणागतिः शातोदरी शुभाचारा शुम्भासुरविमर्दिनी शोभावतीशिवाकारा शङ्करार्धशरीरिणी शोणाशुभाशया शुभ्रा शिरस्सन्धानकारिणी शरावतीशरानन्दा शरज्योत्स्नाशुभानना शरभाशूलिनी श्रद्धा शबरीशुकवाहना श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी शर्वाणी शर्वरी वन्द्या षड्भाषा षड् शर्वत, षडतुप्रिया षडाधारस्थिता देवी षण्मुखप्रियकारिणी षडङ्गरूपसुमती सुरा सुरनमस्कृता सरस्वती सदाधारा सर्वमङ्गलकारिणी सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा सर्वा वासा सदानन्दा सुस्तनी सागराम्बरा सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा सप्तर्षिमण्डलगता सोममण्डलवासिनी सर्वज्ञा सान्द्रकरुणा समानाधिर्कवर्जिता सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलैष्टदा सरदा सूर्यतनया सुकेशी सोमसंवतिः हिरण्यवर्णाहरिणी ह्रीङ्कारी हंसवाहिनी क्षौमवस्त्रपरीताङ्गी क्षीराब्दितनया क्षमा गायत्री चैव सावित्री पार्वती च सरस्वती वेदगर्भावरारोहा श्रीगायत्री पराम्बिका इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् एवं नामानि गायत्र्याः तोषोत्पत्तिकराणि अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह जपं कृत्वा होम पूजाध्यानं कृत्वा विशेषतः यस्मैकस्मै न दातव्यं गायत्र्यास्तु विशेषतः सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत् यद्गृहे लिखितम् शास्त्रम् भयन्तस्य न कस्यचित् चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति इदम् रहस्यम् परमम् गुह्याद्गुह्यतरम् महत् पुण्यप्रदम् मनुष्याणाम् दरिद्राणाम् निधिप्रदम् मोक्षप्रदम्बमुक्षूणाम् कामिनां सर्वकामदम् रोगाद्वयीमुच्यते रोगी बद्धो मुच्येतबन्धनात् ब्रह्महत्या सुरापानम् सुवर्णस्त्यै नो नराः गुरुतल्पगतो वापि पातकातन्मुच्यते सकृत् असत्प्रतिग्रहाच्चैवा भक्ष्यभक्ष्याद्विशेषतः पाखण्डानृत्यमुख्यभ्यः पाठनादेवमुच्यते इदम् रहस्यम् ममलम् मयोक्तम् पद्मयोद्भव ब्रह्मसायुज्यपदम् द्रूणाम् सत्यम् सन्त्यनसंशय इति श्रीदेवी महापुराणे द्वादशस्कन्धे गायत्री गायत्रीसहस्रनामस्तोत्रकथं नाम षष्ठोऽध्यायः